श्रीमद्भागवतमहापुराणं चतुर्थस्कन्ध अत पञ्चविंशोऽध्यायः नारद उवाच इत्थं पुरञ्जनं नारी याचमानम् अधीरवत् अभ्यनन्दततं वीरं भजन्ति वीरमोहिता न विदां वयं सम्यङ्कर्तारं पुरुषर्षभ आत्मनस्य परस्यापि गोत्रं नाम च इहाद्य सन्तमात्मानं विधामन तत् परं येनेयं निर्मिता वीरपुरी शरणमात्मनः एते सखाय सख्यो मे न दान्यस्य मानदं शब्दायां मे जागर्ति नागूयं पालयन् पुरीं दृष्ट्या भद्रं ते ग्राम्यान् कामानभीप्से उद्वहिस्यामि तां सेहं च बन्धोभिरन्निन्दं निरिन्दम इमां तमधितं श स्वपुरीं नवमुखीं विभो नयोपनीतान् गृह्णान् कामभोगान् शतं क्षमाः कं नो तदन्यं नमये जरति गमकोविदम् असम्परायाभिमुखम् अश्वस्तनविदं पशुम् धर्मौ हत्रार्थकामौ च प्रजानन्दोऽमृतं यश लोकाभिशोकाविरजायान्न केवलिनो विदुः चित्तदेवरसि मर्त्यानां भूतानाम् आत्मनश्च क्षेमं वदन्ति शरणं भवेस्मिन् यद्विहाश्रमः सानामवीरविख्यातं वदान्यं प्रियदर्शनं नाभृणेद्वियं प्राप्तं मादुषे त्वादिसम्पतिम् कस्या मनस्ते भुवि भोग्भून् भोगि भोगयोः यस्या न सद्ये भुजयोर्महाभुज योनाथवर्गाधिमलम् कृणोद्धत मृतावलोकेन चरत्यपोहितुम् नारदुवाच इति तौ दम्पती तत्र समुद्य समयमिथ ताम् प्रविश्य पुरीम् राजन्मुदा ते शतं समाह उपगीयमानो ललितं तत्र तत्र च गायकैः किरन् परिवृत श्रीभिर्षदिनीमा विश्रुचौ सप्तोपरि कृता द्वार पुरस्तस्यात् दे अध पृथग्विषयं गर्त्यर्थं तस्यां य कश्चनैश्वरः पञ्चद्वारस्तु पौरस्त्रां दक्षिणैका तथोत्तराम् अस्ति मे द्वे अमुषां ते नामानि रिपुवर्णये खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते विभ्राजितं जनपदं यातिताभ्यां दुमस्तख नलिनीनालिनी च प्राग्द्वारावेकत्र निर्मिते अवधूतसगस्ताभ्यां विषयं याति सौरभम् मुख्या नाम पुरस्तादद्वास्तबहूदनौ विषयौ याति पुरन् राज्रसंज्ञविपणान्वितः पितृहूर्नृपयंर्याद्वादलं द्वादक्षिणेन पुरञ्जनः राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः देवहुर्नामपुर्याद्वा उत्तरेण पुरञ्जनः राष्ट्रमुद्धरपञ्चालं याति श्रुतधरान्वितः आसुरीणाम पश्चाद् द्वास्तया याति पुरञ्जनः ग्रामकं नाम विषयं दुर्मदेन शमन्वितः नृतिर्नाम पश्चाद् द्वास्तया याति पुरञ्जनः वैससं नाम विषयं लुब्धुकेन समन्वितः अन्धावमीषां पौराणां निर्वाक्पे संस्कृताबुभौ अक्षणन् अक्षन्वतां मधीपते साभ्यां याति करोति च पुरगतो विसूचीन समन्वितः मोहं प्रसादं हर्षं वायाति जायात्मजोद्भवम् एवं करस्मि संसक्तकामात्मा व्यञ्चितो बुध महिषी यद्यदीहेत तद्वदेवान्वर्तत क्वचिद् पिबन्त्यां पिबति मदिरां मदिविह्वलः अश्नन्त्यां क्वचिदस्नाति जक्षत्यां च जक्षति क्वचिद्गायति गायन्त्यां मृदत्यां मृदति क्वचित् क्वचिद्धसन्त्यां हसति जल्पन्त्या मनुजल्पति क्वचिद् धावति धावन्त्यां तिष्ठन्त्यामनुतिष्ठति अनुचेते शयानायाम् अन्वास्ति क्वचिदासतिम् क्वचित् शृणोति शृण्वन्त्याम् पश्यन्त्यात्मनुपश्यति क्वचित् जघ्रति जिघ्रन्त्यां सृसन्त्यां स्मृतिं स्पृशति क्वचि क्वचिच्च शोचतिम् जायाम् अनुशोचन्ति दीनवत् अनुहृष्यति हृष्यन्त्यां मुदितामनुमोदते तृप्तलब्धो महे सेवं सर्वप्रकृतिवञ्चितः नेच्छन्ननुकरोत्यज्ञ्या क्रीडा मृगो यथा एषीमद्भागते महापुराणे पुरं श्यां शयितायां चतुर्सुन्दे पुरञ्जनोपाख्याने पञ्चविंशोऽध्यायः